अथ स्वस्ति ॐ अग्निमीडे पुरोहितं यज्ञस्य देवम् होतारं होतारम् रत्नधातमम् ॐ स नः पिते वेग्ने सूपायनो भव स च स्वानः स्वस्य ये ॐ मी स्वस्ति भगः स्वस्य देव्यदितिरनर्वणः स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॐ स्वस्थये वायुमुपभ्रवामहै सोमम् स्वस्ति भुवनस्य यस्पतिः बृहस्पतिम् सर्वगणम् स्वस्थैः स्वस्तय आदित्यासो भवन्तु नः ॐ विश्वे देवानो अद्या स्वस्थये वैश्वानरो वसुरग्निः स्वस्तये देवा अवन्त्रि भवः स्वस्ति स्वस्ति नो रुद्रः पात्वङ्घसः ॐ स्वस्ति मित्रा वरुणा स्वस्ति पथ्यैरेवती स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिति कृधि ॐ स्वस्ति पन्थावन चरेम सूर्या चन्द्रमसाविव पुनर्ददताग्रता जानता सङ्गमेमहि ॐ ये देवानां यज्ञिया यज्ञियानाम् मनुरजत्रा अमृता ऋतज्ञः तेनोरासन्तामुरुगायमद्य यूयम् वात स्वस्तिभिः सदा नः ॐ येभ्यो माता मधुमत्पिन्वते पयः पीयूषम् दौरदितिरद्रिबर्हाः उक्थ शुष्मान् वृषभरान् स्वप्नसस्ताम् अनुमदा स्वस्तये ॐ द्विचक्षसो अनिमिषन्तु अर्हणा बृहद्देवासु अमृतत्वमानशुः ज्योतिरथा अहि माया अनागसु दिवो वर्ष्वाणं वसते स्वस्तये ॐ संराजोये सुवृधो यज्जमा ययुरपरिवृता दधिरे दिविक्षयम् तामाविवास नमसा सुभृक्तिभिर्बहु आदित्याम् अदितिं स्वस्तये ॐ को वः सोमम् राधदियम् जुजोषध विश्वे देवासो मनुषो यतिष्ठन कोवोध्वरम् तु विजाता अलङ्करद्योरः पर्षदत्यङ्गः स्वस्थये ॐ येभ्यो गोत्राम् प्रथमा मा येजिः मनुःस्तमिद्धाग्निर्मनसा सप्तहोत्रिभिस्त आदित्या अभयम् ॐ ययिशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः तेनः कृताद् कृतादेन सद्यादेवासः पिप्रता स्वस्तये ॐ भरेष्विन्द्रम् सुहवम् हवामहेघोमुचम् सुकृतम् दैव्यम् जलम् अग्निम् मित्रम् वरुणम् सातये भगम् द्यावापृथिवी मरुतः स्वस्तये ॐ सुत्राणम् पृथिवीम् जामनेहसम् सुशर्माणमदितिम् सुप्रणीतिम् दैवीम् नावम् स्वरित्रामनागसमस्रवन्ति मारुहे मा स्वस्तये ॐ विश्वेरत्रा अधिवोचतु दयित्रा यध्वन्नो दुरे वाया अभिहृतः सत्यया देवा, देवा अवसे स्वस्तये ॐ अपामीवामपविश्वामनाहुतिमपारातिम् दुर्विदत्रामघायतः आरे देवाद्वेषु अस्मद्युयोतनो नृणः शर्म यच्छतास्वस्तये ॐ अरिष्टः समर्तो विश्व एधते प्रजाभिर्जायते धर्मणस्परि यमादित्यासु न यथासु विश्वानि दुरितास्वस्तये ॐ यम् देवासो बधवाजसातौ यं शूरसाता हिते धनी प्रातर्या बाणम् रथमिन्द्रानसि मरिष्यन्तमारुहीमा स्वस्थये ॐ स्वस्तिनः पथ्यासुधन्वसु स्वस्त्यप्सु वृजने स्वर्वती स्वस्ति नः पुत्रकृतेषु योनिषु स्वस्ति ॐ स्वस्ति ऋद्धिप्रपथे श्रेष्ठा दीर्णस्वत्यभियावाममेति सारो अमासु अर्णे निपातु स्वापेशा भवतु देवगोपा ॐ ईशे वायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्ताय ध्वमज्ञा इन्द्राय भागम् प्रजावतीरनमिवा ध्रुवा अस्मिन् गोपतो स्यातवभिर्यजमानस्य पशून्पाहि ॐ आनो भद्रः क्रतभूयन्तु विश्वतो दग्धासु अपरीतास उद्भिदः देवानो यथा स दमिवृधे असन्नः रक्षितारो दिवि दिवि ॐ देवानाम् भद्रासुमतिर् रिजूयताम् देवानाम् रातिरभिनो निवर्तताम् देवानाम् सख्यमुपसेदिमा वयम् देवान आयुः प्रतिरन्तु जीवसे ॐ तमीशानम् जगतस्तस्सुषस्पतिम् धियञ्जिन् मम सेहुमै वयम् पूषानो यथा वेदसामसद्वृत्तिरक्षितापायुरदब्धः स्वस्तये ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति पूषा विश्ववेदाः स्वस्ति नस्ताक्षु अरिष्टमेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ भद्रम् कर्णीभिः शृणुयाम देवा भद्रम् पश्यमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुश्रुवंसस्तनोभिर्व्यशीमहि देवहितम् यदायुः ॐ अग्न षि त्वमग्नेयज्ञानाम् होता विश्वेषाम् हितः देवेभिर्मा ऋषे जनि ये त्रिशक्तः पर्यन्ति विश्वारूपाणि बिभ्रतः वाचस्पतिर्बला तेषाम् तन्वो अद्य दधातु मे इति स्वस्ति वाचनम्